ैकपञ्चाशः सर्गः तम् समीक्ष्य महासत्त्वम् सत्त्ववान् हरिसत्तमः वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् अहम् सुग्रीव सन्देशादिह प्राप्तस्तवान्तिके राक्षसेष हरीशस्त्वाम् भ्राता कुशलमब्रवीत् भ्रातुशृणु समादेशम् सुग्रीवस्य महात्मनः धर्मार्थसहितम् वाक्यमिह चामुत्र च क्षमम् राजा दशरथो नाम रथकुञ्जरवाजिमान् पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकामनम् लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया रामो नाम महातेजा धर्म्यम् पन्थानमाश्रितः तस्य भार्या जनस्थाने भ्रष्टासीतेति विश्रुता वैदेहस्य सुताराज्ञो जनकस्य महात्मनः मार्गमाणस्तुताम् देवीम् राजपुत्रः सहानुजः ऋष्यमोकमनुप्राप्तः सुग्रीवेण च सङ्गतः तस्य तेन प्रतिज्ञातम् सीतायाः परिमार्गणम् सुग्रीवस्यापि रामेण हरिराज्यम् निवेदितुम् ततस्तेन मृधे हत्वा राजपुत्रेण बालिनम् सुग्रीवस्थापितो राज्ये हर्यर्क्षाणाम् गणेश्वरः त्वया विज्ञातपूर्वश्च बाली वानरपुङ्गवः स तेन वानरः स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः ताम् हरीणाम् सहस्राणि शतानि नियुतानि च दिक्ष सर्वासु मार्गम् ते ह्यधश्चोपरिचाम्बरे वैनते यसमाः केचित् केचित् अहम् तु हनुमान् नाम मारुतस्यौरसः सुतः सीतायास्तु कृते तूर्णम् शतयोजनमायतम् समुद्रम् लङ्घयित्वैव त्वाम् दिदृक्षुरिहागतः दृष्टा गृहेते जनकात्मजा तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः परदारान्महाप्राज्ञ नोपरोद्धम् त्वमर्हसि न हि धर्म विरुद्धेषु बह्वपादेषु कर्मसु मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधा। कश्च लक्ष्मणमुक्तानाम् रामकोपानुवर्तिनाम् शराणामग्रतस्थातुम् शक्तो देवासुरेष्वपि न चापि त्रिषु लोकेषु राजन् विद्येत राघवस्य व्यलीकम् यः कृत्वा तत्रिकालहितं वाक्यं धर्म्यमर्थानुयायि मन्यस्वनरदेवाय जानकी प्रतिदीयता दृष्टा हीयम् मया देवी लब्धम् यदिह दुर्लभम् उत्तरम् कर्म यच्छेषम् निमित्तम् तत्र राघवः लक्षितेयम् मया सीता तथा शोकपरायणा गृहेयाम्नाभिजानासि पञ्चास्यामिवपन्नगी नेयम् जरयितुम् शक्या सासुरैरमरैरपि विशसंस्पृष्टमत्यर्थम् भोक्तमन्नमिवौजसा तपः सन्तापलब्धस्ते सोऽयम् धर्मपरिग्रहः न स नाशयितुम् न्याय्य आत्मप्राणपरिग्रहः अबध्यताम् तपोभिर्याम् भवान् समनुपश्यति आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययम् महान् सुग्रीवो न च देवोऽयम् नयक्षो न च राक्षसः मानुषो राघवो राजम् सुग्रीवश्च हरीश्वरः तस्मात्प्राणपरित्राणम् कथम् राजम् करिष्यसि न तु धर्मोपसंहारमधर्मफलसंहितम् तदेव फलमन्वेति धर्मश्चाधर्मनाशनः प्राप्तम् धर्मफलम् तावद्भवताना प्रसंशयः फलम याप्यधर्म से क्षिप्रमे प्रपत्से जनस्थान बुद्ध् वालिनच वधम तथा राम सुग्रीवस सख्य बुद्ध्य स्वितमन काम्छम्येक स वाजिथ कुंजरा लाशय शक्तस्तु न निश्चय राण ही प्रतिर्षण सन्ध उत्सादनममित्राणाम् सीतायैस्त्व प्रदर्शिता अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः न सुखम् प्राप्नुयादन्यः किम् पुनस्त्वद्विधो जनः याम् सीतेत्यभिजानासि येयम् तिष्ठति गृहे कालरात्रीति विद्धि सर्वलङ्का विनाशिनीम् तदलङ्कालपाशेन सीता सी विग्रहरूपिणा स्वयम् स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम् सीतायास्तेजसा दग्धाम् रामकोपप्रदीपिताम् दह्यमानामि माम् पश्य पुरीम् साट्टप्रतोलिकाम् स्वानि मित्राणि मन्त्रींश्च ज्ञातीम् भ्रातॄन् सुतान्हितान् भोगान् दारांश्च लङ्काम् च सत्यम् राक्षस राजेन्द्रशृणुष्वचनम् मम रामदासस्य दूतस्य वानरस्य विशेषतः सर्वाल्लोकान्सु संहृत्य सभूतान् सचराचरान् पुनरेव तथा स्रष्टुम् शक्तो रामो महायशाः देवासुरनरेन्द्रेषु यक्षरक्षो रगेषु च विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः यो रामम् प्रति युध्येत विष्णुतुल्यपराक्रमम् सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम् रामस्य राजसिंहस्य दुर्लभम् तव जीवितम् देवाश्च दैत्याश्च निशाचरेन्द्रगन्धर्वविद्याधर रामस्य लोकत्रयनायकस्य स्थातुम् न शक्ताः समरेषु सर्वे ब्रह्मा स्वयम्भूश्चतुरा ननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा इन्द्रो महेन्द्र सुरनायको वा स्थातुम् न शक्ता युधि राघवस्य ससौष्ठवोपेतमदीनवादिनः वचः दशानन कोप विवृत्तलोचन सब् वधम इत्यार्षे इशे श्रीमद्राणे वाक्य सुंदर कांडे एक सर्ग